अथ प्रपेदे त्रिदशैरशेषैः क्रूरासुरोपप्लवदुःखितात्मा पुलोमपुत्री दयितोऽन्धकारिम् पत्रीव तृष्णा तुरितः दृप्तारिसन्त्रासखिलीकृतात् सः कथञ्चिदम्भोह विहारमार्गात् अवातताराभिगिरिम् गिरीश गौरीपदन्यास विशुद्धमिन्द्रः सङ्क्रन्दनस्यन्दनतोऽवतीर्य मेघात्मनो मातलिदत्तहस्तः पिनाकिनोऽथालयमुच्चचाल शुचौ पिपासाकुलितो यथाम्भः इतस्ततोऽथ प्रतिबिम्बभाजम् विलोकमानस्फटिकाद्रिभूमौ आत्मानमप्येकमनेकधा सह व्रजन्विभोरास्पदमाससाद विचित्रचञ्चन्मणिभङ्गिसङ्गम् सौवर्णदण्डम् दधतातिचण्डम् स नन्दिनाधिष्ठितमध्यतिष्ठत् सौधाङ्गणद्वारमनङ्गशत्रोः ततः स कक्षा हितहेमदण्डः नन्दी सुरेन्द्रम् प्रतिपद्य भ्रूसञ्ज्ञयानेन कृताभ्यनुज्ञः सुरेश्वरम् तम् जगदीश्वरेण प्रवेशयामासुरैः पुरोगः समम् स नन्दी सदनम् सदस्य स गणैरनेकैर्विविधस्वरूपैः अधिष्ठितम् संसदि रत्नमय्याम् सहस्रनेत्र शिवमालुलोके कपर्दमुत्पद्धमहीनमूर्धरत्नांशुभिर्भासुरमुल्लसद्भिः दधानमुच्चैस्तरमिद्धधातोः सुमेरुश्रृङ्गस्य समत्वमाप्तम् बिभ्राणमुत्तुङ्गतरङ्गमालाम् गङ्गाम् जटाजूटतटम् भजन्तीम् गौरीम् तदुत्संग हसन्तीम् इव स्वफेनैः शरदभ्रशुभ्रैः गङ्गातरङ्गप्रतिबिम्बितैस्वैः बहूभवन्तम् शिरसा चलन्मरीचिप्रचयैस्तुषार गौरैर्हिमद्योतितमुद्वहन्तम् भालस्थले लोचनमेधमान धामाधरीभूत रवीन्दुनेत्रम् युगान्तकालोचितहव्यवाहम् मीनध्वजप्लोषणमादधानम् महार्हरत्नाञ्चितयोरुदारम् स्फुरत्प्रभामण्डलयोः समन्तात् कर्णस्थिताभ्याम् शशिभास्कराभ्याम् उपासितं कुण्डलयो स्थलेन स्वबद्धया कण्ठिक एव नील माणिक्यमय्या कुतुकेन गौर्याः नीलस्य कण्ठस्य परिस्फुरन्त्या कान्त्या महत्या सुविराजमानम् कालार्दितानाम् त्रिदशासुराणाम् चितारजोभिः परिपाण्डुराङ्गम् महन्महेभाजिनमुद्गताभ्र प्रालेयशैलश्रियमुद्वहन्तम् पाणिस्थितब्रह्मकपालपात्रम् वैकुण्ठभाजापि निषेव्यमाणम् नरास्थिखण्डाभरणम् रणान्तमूलम् त्रिशूलम् कलयन्तमुच्चैः पुरातनीम् ब्रह्मकपालमालाम् कण्ठे वहन्तम् पुनराश्वसन्तीम् उद्गीत उद्गीतवेदाम् मुकुटेन्दुवर्षत् सुधाभरौघाप्लवलब्धसञ्ज्ञाम् सलीलमङ्कस्थितया गिरीन्द्रपुत्र्या नवाष्टा पदवल्लिभासा विराजमानं शरदभ्रखण्डम् परिस्फुरन्त्याचिररोचिषेव दृप्तान्धकप्राणहरम् पिनाकम् महासुरस्त्री विधवत्त्वहेतुम् करेण गृह्णन्तमगृह्यमन्यैः पुरा स्मरप्लोषणकेलिकारम् भद्रासनम् काञ्चनपादपीठम् महार्हमाणिक्यविभङ्गिचित्रम् अधिष्ठितम् चन्द्रमरीचिगौरैः उद्वीज्यमानम् चमरैर्गणाभ्याम् श्रस्द्यसनेकसमेत्यगण सुदृष्टे विधं शैलसुताधिनाथं, पुलोमपुत्री दयितो निरीक्ष्य आसीत्क्षणम् क्षोभपरोऽनुकस्य मनो न हि क्षुभ्यति धामधाम्नी विकस्वराम्भोजवनश्रियातम् दृषा सहस्रेण स्वर्गपतिर्बभासे, निरीक्षिवपतिर्बभासेकीर्ण इवाम्रशाखी, दृष्टि सहस्रेण महेशं। भूत्कृतार्थोऽतितराम् महेन्द्रः सर्वाङ्गजातम् तदथो विरूपम् इव प्रियाकोपकरम् विवेद ततः कुमारं कनकाद्रिसारम् पुरन्दरः प्रेक्ष्य धृतास्त्रशस्त्रम् शत्रोर्जयाशाम् मनसा बबन्ध श्रीनीलकण्ठद्युपतिः पुरोऽस्ति त्वयि प्रतीच्छन् सहस्र नेत्रेत्र भवत्रिनेत्र दृष्ट्या प्रसाद प्रगुणो महेश इति महेश्धाजलिनंदी निधा कक्षाभि हेमेत्र प्रसाद पुरतो भविषु अथ स्मरारातिमुवाचवाचम् पुरा सुरेन्द्रम् सुरसङ्घसेव्यम् त्रिलोकसेव्यस्त्रिपुरा सुरारिः प्रीत्या सुधासारनिधारिणेव ततोऽनुजग्राह विलोकनेन किरीटकोटिच्युतपारिजात पुष्पोत्करेणानमितेन मूर्ध्ना स्वर्गैकवन्द्यो जगदेकवन्द्यम् तम् देवदेवम् प्रणनामदेवः अनेकलोकैकनमस्क्रियार्हम् महेश्वरम् तम् त्रिदशेश्वरः सः भक्त्या नमस्कृत्य कृतार्थतायाः पात्रम् पवित्रम् परमम् बभूव सुभक्ति भाजामधिपादपीठम् प्रान्तक्षितिम् नम्रतरैः शिरोभिः ततः प्रणेमुः पुरतो गणानाम् गणाः सुराणाम् क्रमतः पुरारिम् गणोपनीते प्रभुणोपदिष्टः शुभासने हेममये पुरस्तात् प्रापोपविश्य प्रमुदम् सुरेन्द्रः प्रभुप्रसादो हि मुदेनकस्य। कस्य क्रमेण चान्येऽपि विलोकनेन सम्भाविता सस्मितमीश्वरेण उपा अथाह उपाविशंस्तोष्ता दृगोचरे तर सुरासम्रथा दलवैरी मुख्यावाणवर्गा्रचेता कृताञ्जलीकानसुराभिभूतान् ध्वस्तश्रियश्रान्तमुखानवेक्ष्य अहो बतानन्तपराक्रमाणाम् दिवौकसो वीरवरायुधानाम् हिमोदबिन्दुग्लपितस्य किंवः पद्मस्य दैन्यम् ददते मुखानि स्वर्गौकसः स्वर्गपरिच्युताः किम् स्वपुण्यराशौ सुमहत्तमेऽपि चिह्नम् चिरोढम् न निजाधिपत्यस्य परित्यजध्वम् दिवकसो देवग्रहं विहाय मनुष्य साधारणताूय क्वीतलेनभृत महा अन साधारण सिद्धि तद्दैवतं धामनिकामरम्यं। धामनिकामरम्यम् कस्मादकस्मान्निरगाद्भवद्भ्यः चिरार्जितं पुण्यमिवापचारात् दिवौकसो वो हृदयस्य कस्मात् तथाविधं धैर्यमहार्यमार्याह अगादगाधस्य जलाशयस्य ग्रीष्मातितापादिवशादिवाम्भः सुराः सुराधीशपुरःसराणाम् समीयुषाम् वः तद्ब्रूत लोकत्रयजित्वरात् किम् महासुरात् तारकतोविरुद्धम् पराभवम् तस्य महासुरस्य निषेद्धुमेकोऽहमलम् भविष्णुः दावानलप्लोषविपत्तिमन्यः महाम्बुदात् किम् हरते वनानाम् इतीते मन्मथमर्दनेन सुरा सुरेन्द्रप्रमुखामुखेषु सान्द्रप्रमोदाश्रुतरङ्गितेषु दधु श्रियम् सत्वरमाश्वसन्तः ततो गिरीशस्य गिराम् विरामे जगादलब्धेऽवसरे सुरेन्द्रः भवन्ति वाचोऽवसरे प्रयुक्ताः ध्रुवम् फलाविष्टमहोदयाय ज्ञानप्रदीपेन तमोपहेन अविनश्वरेणा स्खलितप्रभेण भूतम् भवद्भावि च यच्च किञ्चित् सर्वज्ञ सर्वं तवगोचरं गोचरम् तत् दुर्वारदोरुद्यमदुःसहेन यत्तारकेणामरघः स्मरेण तदीशतामाप्तवता निरस्ताः वयम् दिवोमी वद किम् न वेत्सि विधेरमोघम् स वरप्रसादम् आसाद्यसद्यस्त्रिजगज्जिगीषुः सुरानशेषानहकप्रमुख्यान् दोर्दण्डचण्डो मनुतेतृणाय स्तुत्या पुरास्माभिरुपासितेन पितामहेनेति निरूपितम् नः सेनापतिः संयतिदैत्यमेतम् पुरः स्मरारातिसुतो निहन्ति अहो ततोऽनन्तरमद्य यावत् सुदुःसहाम् तस्य पराभवार्तिम् विषेहिरे हन्त हृदन्तशल्यम् आज्ञानिवेशम् त्रिदिवौकसोमी निदाघधामक्लमविक्लवानाम् नवीनमम्भोदमिवौषधीनाम् सुनन्दनम् नन्दनमात्मनो नः सेनान्यमेतम् स्वयमादिशत्वम् त्रैलोक्यलक्ष्मीहृदयैकशल्यम् समूलमुत्खाय महासुरम् तम् अस्माकमेषाम् पुरतो भवन्सन् दुःखापहारम् युधियो विधत्ते महाहवे नाथ तवास्य सूनोः शस्त्रैः कृत्त कृत्तशिरोधराणाम् महासुराणाम् रमणी विलापैः दिशो दशैता मुखरी महारणक्षोण पशूपहारीते सुमेन बंदी स्थितादृशा करोतु, वेणी सुरलोक प्रमोक्षक इतरेद्रे वद स्मरारि सुरारिदुशेष्टातरोषा कृतापस्त्रिदश भूताधिपतिभाषे अहो अहो द सुरेन्द्र मुख्या विचेष्टते ममईते कार्याय सज्जो कार्यासजोता सुता पुरा मयाकारिगिरीन्द्रपुत्र्याः प्रतिग्रहोऽयम् नियतात्मनापि तत्रैषहेतुः खलु तद्भवेन वीरेण यद्वध्यत एव शत्रुः अत्रोपपर्णम् तदमी कुमारमेनम् पृतनापतित्वे निघ्नन्तु शत्रुम् सुरलोकमेषः भुनक्तु भूयोऽपि सुरैः सहेन्द्रः इत्युदीर्यभगवांस्तमात्मजम् घोरसङ्गरमहोत्सवोत्सुकम् नन्दनम् हि जहिदेव विद्विषम् संयतीति निजगादशङ्करः शासनम् पशुपतेः स कुमारः स्वीचकारशिरसा वनतेन सर्वथैव पितृभक्तिरतानाम् एष एव परमः खलु धर्मः असुरयुद्धविधौ विबुधेश्वरे पशुपतौ वदतीति तमात्मजम् गिरिजया मुमुदे सुतविक्रमे सति ननन्दतिका खलु वीरसूः वृ प्रौढ़ वीरम कुमारपते बलवदमति दृगंजन भगदभय सद प्राप्य प्रमोदपरोभवत् ध्रुवमते पूर्णे को वा मुदा न हिमाद